अथ उत्कीलनमन्त्रः ॐ श्रीं क्लीं भ्रीं सप्तशतिचण्डिके उत्तीलनम् कुरुकुरु स्वाहा ॐ श्रीं क्लीं भ्रीं सप्तशतिचण्डिके उत्तीलनम् कुरुकुरु ॐ श्रीं क्लीं भ्रीम् सप्तशतिचण्डिके उत्कीलनं कुरु कुरु स्वाहा ॐ श्रीं क्लीं भ्रीं सप्तशतिचण्डिके उत्तीलनं कुरु कुरु स्वाहा ॐ श्रीं क्लीं भ्रीं सप्तशतिचण्डिके उत्कीलनं कुरु कुरु स्वाहा ॐ श्रीं क्लीं भ्रीं सप्तशतिचण्डिके उत्तीलनं कुरु कुरु स्वाहा ॐ श्रीं क्लीं ह्रीं सप्तशतिचण्डिके उत्तीलनं कुरु ॐ श्रीं क्लीं ह्रीं सप्तशतिचण्डिके उत्तीलनं कुरु ॐ श्रीं क्लीं ह्रीं सप्तशतिचण्डिके उत्कीलनं कुरु कुरु स्वाहा ॐ श्रीं क्लीं भीं सप्तशतिचण्डिके उत्कीलनं कुरु स्वाहा ॐ श्रीं क्लीं भीं सप्तशतिचण्डिके उत्कीलनं कुरु ॐ श्रीं क्लीं भीं सप्तशतिचण्डिके उत्तीलनं कुरु ॐ श्रीं क्लीं ह्रीं सप्तशतिचण्डिके उत्तीलनं कुरु कुरु स्वाहा ॐ श्रीं क्लीं ह्रीं सप्तशतिचण्डिके उत्तीलनं कुरु कुरु स्वाहा ॐ श्रीं क्लीं ह्रीं सप्तशतिचण्डिके उत्कीलनम् कुरु कुरु स्वाहा ॐ श्रीं क्लीं भीं सप्तशतिचण्डिके उत्कीलनम् कुरु ॐ श्रीं क्लीं भीं सप्तशतिचण्डिके उत्कीलनम् कुरु ॐ श्रीं क्लीं भीम् सप्तशतिचण्डिके उत्तीलनं कुरु कुरु स्वाहा ॐ श्रीं क्लीं भ्रीं सप्तशतिचण्डिके उत्तीलनं कुरु कुरु स्वाहा ॐ श्रीं क्लीं भ्रीं सप्तशतिचण्डिके उत्तीलनं कुरु कुरु स्वाहा ॐ श्रीं क्लीं भ्रीं सप्तति चंडिके उत्तीलनम कुर कुरु स्वाहा